ओ इदानीं पर्यन्तं न श्रुतं वा नैव अहं किमपि नैव श्रुतवान् भगिनी न श्रुतवान् ओ अहं प्रार्थना सर्वं कृतवती क्षम्यता अहमपि न श्रुत अहं न करिष्यामि इदानीमेव दृष्टवती अत्र कोविड् कोलागतम काल् आगतम् इति कृत्वा अत्र म्यूट् मध्ये स्थापितवती रेकार्डिङ्ग् जायमानमस्ति सर्वेषाम् अस्मिन् पाणिनीयव्याकरणवर्गे स्वागतम् ॐ श्रीगुरुभ्यो नमः एनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्राप्तं तस्मै पाणिन्यये नमः येन धौदागिरपुंसां विमले शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिने ये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिसूत्रकारं चोष्णीमुनित्रयं <coughs> गतसप्ताहे वयं तुदादिगण न गुणः इति पाठः पाठः आरब्ध आरब्धं कृतवन्तः तत्र न गुणः इति चेत् प्रत्यये पकारस्य अभावः एव कारणम् यतोहि भुवादिगणे तुदादिगणे उभयत्र विकरणप्रत्ययस्य अनुबन्धलोपानन्तरं किम् अवशिष्यते इति चेत् अकारः एव अवशिष्यते तथापि भुवादिगणे गुणकार्यं भवति तुदादिगणे न गुणकार्यं किमर्थम् इति चेत् अत्र उक्तमस्ति शकारः यत्र इत्संज्ञा भवति तद् षित् इति वदामः तादृश षित् किं करोति इति चेत् गुणस्य कृते प्रेरयति यदि पित् अपि अस्ति चेत् एव गुणकार्यं भवति अथवा अपि प्रत्ययः गुणकार्यस्य कृते अवरोधः करोति इत्युक्ते पकारः इत्संज्ञा नास्ति चेत् गुणकार्यं न भवति इति अत्र उक्तम् तर्हि इदानीं किं पठनीयम् इति चेत् लिखत धातोः दा, रूपं वयं दृष्टवन्तः लिखु धातोः उपधायाम् इक् वर्णः अस्ति लकारोत्रवर्ती एकं इकारः वर्तते अयम् इकारः उपधायां वर्तते पुगन्दलघुपदस्य च इति सूत्रेण गुणकार्यं भवितुम् अर्हति अस्ति परन्तु अपित्वात् अयं गुणकार्यं निषिध्यते तर्हि तदर्थं सूत्रम् वयम् अद्य पठिष्यामः सार्वधादुकम् अपित् इति एकं सूत्रम् अपित् अयं सूत्रं कीदृशसूत्रम् इति चेत् इति चेत् आदिदेशिकसूत्रम् इति वदामः इत्युक्ते सार्वधादुकम् अपित् नित् वत् इति वदामः अस्य अर्थः कः इति यस्य स्वभावः तादृशम् नास्ति तस्य स्वभावः इदानीं तादृशं परिवर्तनं भवति अनेन यदा अत्याहारः क्रियते खलु तद्वत् अत्र उदाहरणमस्ति सिंहः मानवकः माणवकः सिंहः कीदृशः अस्ति सः बहु पराक्रमशाली अस्ति कस्य मनु अत्र बालकः इति उक्तं कोऽपि मानवः तादृशं बहु साहसिकः अस्ति चेत् तं दृष्ट्वा अयं सिंहः माणवकः इति यदा वदामः सिंहः सदृशः भवति सः इति वदामः खलु तदेव अत्र उक्तमस्ति सिंहो माणवकः इति अस्य अर्थः कः इत्युक्ते अपि प्रत्ययः यद्यपि नित् नास्ति तदापि नित्वत् नित्वं तस्मिन् आरोपयति यदा णित्वम् आरोपयति कीदृशकार्याणि तस्मिन् भवति यत्र यद् नित् ित्व अपेक्षितयानि कार्याणि वर्तते तत् सर्वम् इदा इदानीम् अपि प्रत्यये अपि भवति इति स्मार्तव्यम् तदेव अत्र उक्तमस्ति तत् पठिष्यामः यादव महोदय भवान् पठतु शिवकोटि भवान् पठतु हरि भगिनी अहम् अन्ते चतुर्थं पश्यामि अहं बहु दूरम् अभवत् अहं बहु ओ चिन्ता मास्तु शृणोतु शृणोतु केवलं पठितुं शक्यते वा पठितुं तु शक्नोमि कुतः तर्हि अत्र इदानीम् अहं हैलैट् कृतवती द्रष्टुं शक्यते वा सर्वधातुकम् अपि तत् अनुवृत्तिसहितं सूत्रम् इति वा तदेव अस्तु सार्वधातुकम् अपित् ङीत् अर्थः एवम् अपित् सार्वधातुकं ङीति इव अस्ति अयम् अतिदेशः इत्युच्यते अतिदेशः नाम यस्य स्वभावः तथा नास्ति सः तथा भवतु इति विधानम् यथा सिंहो माणवकः माणवकः बालकः सिंहः नास्ति परन्तु वीरो माणवकः सिंहः इव अतः माणवके सिंहस्य वीरलक्षणं न श्रूयते महोदय इदानीं म्यूट् करोतु अहं वदामि इदानीं म्यूट् करोतु अहं वदामि म्यूट् करोतु इदानीं सूत्रमस्ति किम् शकारः यत्र इत्संज्ञा भवति तत् षित् इति वदामः किन्तु शा इति न केवलं षित् इति अत्र उक्तमस्ति अपि च अयं प्रत्ययः अपित् अपि इत्युक्ते अस्मिन् प्रत्यये पकारः इत्संज्ञा नास्ति इति कृत्वा शा इति विकरणप्रत्ययः अपित् अपित् यस्मिन् इत्संज्ञकः पकारः नास्ति सः अपित् इति उच्यते विकरणप्रत्ययः शाचित् अस्ति इति स्मरतु नाम यद्यपि शकारस्य लोपः जातः तथापि शकारस्य प्रभावः अस्ति एव इत्युक्ते शकारस्य लोपः जाते सति तन्निमित्तीकृत्य यानि कार्याणि वर्तते तद् भवितुम् अर्हति अस्ति अस्ति एव लोभः इत्युक्ते अदृश्यः न अपगतः इत्युक्ते लोभः इत्युक्ते अदर्शनं अदर लोभः इति एव सूत्र इत्युक्ते इदानीं न द्रष्टुं शक्यते परन्तु अस्य प्रभावः वर्तते एव परन्तु तुदादिगणे विवरणप्रत्ययस्य पकारः न आसीत् एव पकारः लोभः इति न पकारः नास्ति एव इत्युक्ते यत्र भुवादिगणे पकारस्य शप् इत्यत्र पकारस्य लोभः इत्युक्ते अदर्शनमेव परन्तु तुदादिगणे अदर्शनम् इति न एव क्षित् एव अत्र पकारः एव नास्ति अतः एव उक्तम् अपित् इति अदर्शनम् इति न अत्र प्रत्ययः नास्ति इति कारणात् अपित् इति वदामः अधः शा विकरणप्रत्ययः अपित् इति उच्यते यद् स्मर्तव्यम् इदानीं तन्निमित्तीकृत्य एकं सूत्रं वर्तते सार्वधातुकम् वर्त। अपित् त् वत् अपित् त् तावत् तावत्पर्यन्तं सूत्रं व वर्तते प्रथमाध्यायस्य द्वितीयपादस्य चतुर्थसूत्रमस्ति इदं सूत्रम् आदिदेशीयसूत्रम् इति वदामः अदिदेशनाम किं यस्य स्वभावः तादृशं नास्ति परन्तु तदा इति नियमनं ने, करोति तदेव अदिदेशः नाम इत्युक्ते अपि प्रत्ययस्य स्वभावः नीतवत् नास्ति तथापि नीतवत् भवतु इति यदा आदेशः क्रियते तदेव अत्र अधिदेशसूत्रस्य कार्यम् अत्र उदाहरणमस्ति सिंहो माणवक इत्युक्ते माणवक सिंहसदृशः तस्मिन् सिंहस्य स्वभावः यद् अस्ति तादृशस्वभावः मानवः वर्तते इति कारणात् सिंहो माणवकः इति अत्र अध्यारोपं कृतमस्ति तद्वत् अत्रापि यस्मिन् प्रत्यये णकारस्य संज्ञा अस्ति स प्रत्ययः णित् णकारः इत् यस्य सः ञित् सः णित् ञित् प्रत्ययानां किञ्चन विशिष्टं कार्यम् अस्ति इदानीं ञित् प्रत्ययः अपित् प्रत्ययः ञित् भवति इति उक्तं तर्हि ञित् प्रत्ययस्य कार्यं किम् इति ज्ञातं चेदेव अपि प्रत्ययनिमित्तीकृत्य कार्यं किं इति वयं ज्ञातुं शक्यते तत्र उच्यते तत् किं कार्यम् इति सम्प्रति उच्यते अत्र तावदेव अवगच्छतु सार्वधातुकम् अपित् इति सूत्रेण यः प्रत्ययः अपित् सः यद्यपि साक्षात् णित् नास्ति तथापि णित् इव भवति सार्वधातुकम् अपित् ित् इति अस्ति सूत्रम् णित् इत्युक्ते यस्मिन् प्रत्यये नकारः इत् भवति सः त् इति वदामः परन्तु अस्माकं प्रत्ययः अपित् प्रत्ययः अस्ति पकारः इत् नास्ति इति कारणात् शका श इति विकरणप्रत्ययः अपित् प्रत्ययः तादृशप्रत्ययः मित् वत् भवतु इति उक्तम् तर्हि यस्य स्वभावः नित्तिस् मित् प्रत्ययस्य नास्ति तदापि नित् वत् भवतु तर्हि कीदृशकार्यम् इति इदानीं पश्यामः तथा नित् प्रत्ययः कार्यम् यथा नित्यय कार्यं करोति तथा अपि प्रत्ययः अपि कार्यं करोतु तच्च कार्यं करो किम् इति इदानीं पश्यामः तत् कार्यम् किम् इति इदानीं पश्यामः इदानीं पर्यन्तं कस्यापि सन्देहः अस्ति चेत् पृच्छतु सुन्दरं महोदय भवान् द्वितीयपञ्चमबिन्दु पठतु आं भगिनी पठामिति च प्रथमाध्याये प्रथमपादे पञ्चमसूत्र सूत्रः गुणबाधकं सूत्रं गुणबाधकं सूत्रम् अनवृत्ति सहितं सूत्र निति च इकः गुणवृद्धि गुणवृद्धि न यत् प्रत्ययः खित् खित् अथवा नित् अस्ति अपि च तस्य प्रत्ययस्य कारणात् अंगे इतः पाने गुणः इतः स्थाने गुणः अथवा वृद्धिः भवति स्म कः न भवति गुणस्य वृद्धेश्च सम्प्रति अस्माकं अवधानं गुणे न तु वृद्धौ प्रत्यय अथवा निट् अस्ति इत्युक्ते अत्र पश्यतु महोदय कि इति अस्ति खलु अत्र ककारः गकारः गकारः इति भवेत् वर्णत्रयं वर्तते तत्र सन्धिं भूत्वा ककारः आगतं तदग्रिपाडे आग आगच्छति तदेव कित, अत्र कित् गित् नित् इति अत्र वर्णत्रयं वर्तते वर्त खलु ककारः वर्त वर्त तदेव अत्र उक्तमस्ति तस्य प्रत्ययस्य कारणात् अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति अङ्गे ये अस्ति चेत् अङ्गे इकः स्थाने इकः अस्ति चेत् तत्र गुणः अथवा वृद्धिः भवति गुणस्य वृद्धेः च बाधकं सूत्रम् गुणस्य वृद्धे च बाधकं न अवगोधम् इदं सूत्रं गुणकार्यं वृद्धिकार्यम् अवरोधं करोति अवर। न भवति अस्तु अस्तु तदेव <coughs> अपि च तस्य प्रत्ययस्य कारणात् अङ्गे इतः स्थाने गुणः अथवा वृद्धि भवति तदापि गुणस्य वृत्ते च बाधकं सूत्रम् इति अर्थं मन्ये अहं वदामि वदामि सहितसूत्रमस्ति किङ्ति च इकः गुणवृत्ति न, न किङ्ति इति अस्ति खलु अह अत्र यः प्रत्ययः मित् गित् चित् अथवा नित् अस्ति चेत् किङ् इति वदामः खलु इत् खकारः यत् घकारः यत् अथवा ङकारः यत् अस्ति चेत् किङ् इति वदामः अत्र अपि च तस्य प्रत्ययस्य कारणात् अङ्के गृहस्थाने गुणः अथवा वृ भवति स्म यतो हि इदानीं सार्वधातुकप्रत्ययः वा आर्थधातुकप्रत्ययः वा यः कोऽपि प्रत्ययः भवतु प्रत्ययः धातुतः आगच्छति चेत् गुणकार्यस्य वृद्धिकार्यस्य प्रसक्तिः अस्ति एव खलु वयं दृष्टवन्तः गतायाम् इक् वर्णः अस्ति चेत् अथवा इगन्धम् अङ्गमस्ति चेत् गुणकार्यं भवति अतः उक्तमस्ति अङ्गे इवस्थाने गुणः अथवा वृद्धिः अवगतं वा किन्तु भवति स्म इत्युक्ते प्राप्तिः अस्ति एव सः न भवति परन्तु तद् न भवति अस्य कारणमेव उक्तम् गुणस्य वृद्धे च बाधकम् सूत्रम् इदम् अत्र किमर्थम् गुणः न भवति इत्यस्य उत्तरमस्ति गुणस्य वृद्धे च बाधकम् इदम् सूत्रम् किङ्ति च इति सूत्रं किं करोति गुणबाधकसूत्रम् इति अत्र दत्तमस्ति परन्तु वृ वृद्धेः अपि बाधकसूत्रं सम्प्रति अस्माकम् अवधानं गुणे न तु वृद्धौ इदानीम् अस्माकं पाठे कीदृशकार्यमस्ति गुणस्य कार्यं किं तुदादिगुणे न गुणः इति एव खलु एव अस्माकं विषयः अवगतं वा अवगतम् अन्य अन्येषां कृते कोऽपि सन्देहः अस्ति चेत् पृच्छतु नास्ति अग्रे सरेमा? सुशीला भगिनी भगिनी पठतु किम् इति द्वितीयपरिच्छेदमस्ति खलु न आगतवती अहं पठितुमेव कर्तुं शक्नोमि भगिनि हा पठतु पठतु भगिनी चिन्ता मास्तु पठतु अस्तु भगिनि एकनिमिषम् पञ्चमबिन्दु द्वितीयपरिच्छेदः किञ्चित् किञ्चित् सप्तमन्यन्तं हलन्त्यं पदं तस्य भगिनी किङ् इति किङ्ति इति वदतु किङ् सप्तमन्तम् पदं तस्य अन्तः एवम् घे यत् उत्संज्ञर्णकः यस्य सः प्रत्यय किञ्चित् तस्मिन् इति सप्तम्यन्तम् यतः कार्यम् तस्मात् पूर्वम् भवति स्म तस्मात् प्रत्ययात् पूर्वम् इकः गुणः च वृद्धिः च न भवति धन्य धन्यवादः भगिनी सम्यक् इदानीं किङ् इति सप्तम्यन्तं हलन्तं पदम् इत्युक्ते पदं किमस्ति किङ् ककारः गकारः गकारः यत् किङ् यत् इति अस्ति अत्र इति सप्तम्यन्तं पदं गकारः ककारः नकारः च गच्छ गच्छ ते इत् सञ्ज्ञकः वर्णाः यस्य सः प्रत्ययः ञित् कित् किञ् इति वद वदामः तस्मिन् इति सप्तम्यन्तम् अत्र विग्रहवाक्यं दत्तमस्ति तस्य अर्थः एवं ग गच गित् इति अस्ति खलु अतः गाच कित् गाच ङित् गा ङाच ते इतः ते सर्वे इत्संज्ञा भवति इत्संज्ञकवर्णाः यस्य सः प्रत्ययः तादृशप्रत्ययः कित् इति उत्तममस्ति तस्मिन् इत्युक्ते अत्र सप्तमे योजितं तर्हि तस्मिन् इति इति अत्र तस्मिन् इति सप्तम्यन्तं यतः कार्यं तस्मात् पूर्वं भवति यदा सूत्रे सप् सब, सप्तम्यन्दपदम् आगच्छति तदा वयं किं तेन किं ज्ञातव्यः इति चेत् सप्तम्यन्दपदस्य पूर्वं कार्यं भवति भवति स्म तस्मात् प्रत्ययात् पूर्वम् इकः गुणः वृद्धिः च न भवति इदानीम् अस्य सूत्रस्य कार्यम् इति किम् इति चेत् गुणकार्यस्य वृद्धिकार्यस्य निषेधः इति कृत्वा आ, आ, यदा तादृशप्रत्ययः अङ्गस्य अनन्तरं धातोतः आगच्छति चेत् अत्र विद्यमानः गुणकार्यम् अथवा वृद्धिकार्यं न भवति प्रत्ययात् पूर्वम् एकः गुणः वा वृद्धिः वा न भवति इदानीं लिख् धातुः स्वीकृत्य पश्यामः चेत् अत्र पश्यतु लिख् योगः आ यो अयं सक् शक, शकारः अपित् प्रत्ययः इति कृत्वा तद् इत्यत्र इकारः वर्तते परन्तु आ इति इदानीमह प्रत्ययः वर्तते अयं प्रत्ययः अपित् प्रत्ययः इति कारणात् ञित् अस्य प्रयोगः करिष्यामः तर्हि निदि यानि कार्याणि वर्तते तदेव अत्रापि भवति तर्हि नित् प्रत्ययस्य गुणकार्यवृद्धिकार्यः निषेधः तर्हि इकारः अस्ति चेदपि अत्र प्रत्ययस्य पूर्वं विद्यमानः इकारस्य गुणवृद्धिनिषेधः इति अत्र उक्तमस्ति कस्यापि सन्देहः अस्ति वा नो चेत् तत् लेख किन्तु अपि अतः लिखति एव उत्तमम् शैला भगिनी भगिनी षष्ठः बिन्दु पठतु अस्तु महोदय सार्वधातुक मणित् सार्वतुकम् अपित् भगिनि सार्वधातुकम् अपित् अस्तु महोदय क्षम्यतां सार्वधातुकम् अपित् इत्यनेन सूत्रेण यः प्रत्ययः अपित् सः ङित् इव अस्ति अतः यत् कार्यम् नित् प्रत्ययः करोति तदेव कार्यम् अपित् प्रत्यया अपि करोति तुदादिगणे श सा विकरणप्रत्ययः श, श... श... श... श... विकरणप्रत्ययः श... अपित् अस्ति ओ अतः नित् इव कार्यं करोति नाम गुणबाध बाधकं बाधकं कार्यं करोति गुणबाधकं कार्यं करोति इत्युक्ते किं वदामः महोदय नाम गुणगुणबाधकं कार्यं करोति गुणबाध्यमित्युक्ते गुणस्य कृते अवरोधः करोति कारयति सार्वधाकम् अपित् इत्यनेन यः प्रत्ययः अपित् सः ङित् इव भवति सार्वथादुकम् अपि ञित्वत् भवति इति उक्तम् तर्हि अस्तु अतः यत् कार्यं यत् प्रत्ययः करोति तत् कार्यम् अपित् प्रत्ययः अपि करोति यतोहि तदिदानीं ङित्वत् अस्ति इति कारणात् अस्तु महोदय तद् तर्हि सुदादिगणे शा इति विकरणप्रत्ययः कीदृशः भगिनी वदतु प्रत्ययः शित् अस्ति वा शा इति विकरणप्रत्ययः सुदादिगणे विकरणप्रत्ययः अस्ति शा अयं शकारः षित् अस्ति वा नित् नास्ति वा टित् चित् नास्ति पित्तस्ति वा राधा भगिनी किञ्चित् सहायं करोतु अस्ति महोदय चित् अस्ति पित् अस्ति वा तर्हि किम् अपि प्रत्ययः कीदृशः भवति भवति अतः गुणवादकम् अवगतं वा आमाद। सप्तमांशं वा गुणाभावे वर्णमेलने लिख योगे अयोगेति लिखति इति भवति तर्हि सारांशः एवं यत यत्र विकर्ण प्रत्यये पकारः नास्ति तत्र शकारस्य गुणार्थं दायिनी शक्तिः अवरुद्धा भवति तुदादिगणे विकरणप्रत्यये गुणार्थं प्रेरणादायकः शकारः अस्ति किन्तु सः च शकारः स्वस्य कार्यं कर्तुं न अर्ह अर्हः यतः इत्संज्ञकपकारस्य अभावे गुणार्थं बाधा भवति वक्तुं वा भगिनि आम् लिखधातुः अस्ति तर्हि तत्र लिख योगे ष योगे ति इति विकरणप्रत्ययः अस्ति शित् अस्ति किन्तु पित् नास्ति अतः लिखति एव भवति लेखति न भवति गुणं न भवति तस्य तर्हि सारांशः एतद् यत् यदि विकरणप्रत्यये शकारः पकारः भवति चेत् एव गुणस्य गुणं भवति तस्य यतः शकारः प्रेरयति तथा च पकारः गुणस्य कृते नुण साहाय्यं करोति किन्तु षष्ठमगणे केवलं विकरणप्रत्ययः शकारः अस्ति तत्र प नास्ति एव तर्हि यद्यपि शकारः प्रेरयति तथापि प्र, पकारः नास्ति इत्यतः गुणार्थं बाधा भवति तदेव अत्र अस्ति अन्यत् किमपि न महोदय इति रूपं किं भवति लिखति अर्ह धातुः किं भवति अर्हः अर्हः इति ऋस्य एव अर् भवति परन्तु अर्हः इति दृष्ट्वा वदामि भगिनि इदानीम् एवमेव वदति चेत् दोषः भवति प्रेषयतु गणमध्ये प्रेषयामि प्रेषयामि इदानीमेव अत्र लिखतु बहु स्थाने अहं दृष्टवती अर्थं पश्यामि शक्नोमि भगिनी एव सूत्रातः पठतु भगिनि पूर्णसू सूत्रा सूत्रार्थः सार्वधातु कम्ति पि सार्वधातुकं यत् पित् तत् इद्वं भवति सार्वधातुकं प्रथमान्तम् अपि अपि प्रथमान्तं द्विपदमिव सूत्रम् इदम् इदं सूत्रम् सूत्रम् इदं सूत्रं सन्धि इदं द्विपदम् इदं सूत्रम् द्विपदम् इदं सूत्रं वाङ्कुटादिभ्यो गाढपुटादिभ्यो निणित् गाढुपुटादिभ्योत् इत्यस्य अनुवृत्तिः अनुवृत्तिः नित् इति शब्दस्य अनुवृत्तिः इत्यस्य अनुवृत्तिः अनुवृत्तिः सहि सूत्रं सार्वधातुकम् अपि नित् सार्वधातुकम् अपि तु यः प्रत्ययः गित् गित् अथवा नित् अस्ति अपि च तं प्रत्यन्तं निमित्तीकृत्य प्रत्ययं निमित्तीकृत्य प्रत्ययं निमित्तीकृत्य प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म सः गुणः वृद्धिः न भवति ग क ग च क च न, च, च तेषाम् इतरेतरद्वन्द्वः क्वङ्गतः यस्य सः क्विङ्ग तस्मिन् परे क्विंगति, द्वन्द्वगर्भ बहुव्रीहिसमासः अत्र गस्थाने ककार हरिच इत्येन चर्तसन्धिः सप्तम्यान्तं च अव्ययपदम् द्विपदमिदं द्विपदमिदं सूत्रम् ृद्धि इत्यस्य पूर्णतया अनुवृत्तिः न धातु लोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं गति च इकगुणवृद्धिः न धनि पश्यामः सार्वधातुकम् अपित् इति अस्ति सार्वधातुकम् अपित् इति प्रथमाध्यायस्य द्वितीयपादस्य चदर्थसूत्रमस्ति इदं सूत्रम् आदिदेशिकसूत्रम् इति मया उक्तं सार्वधातुकम् यद् अपित् तत् नीतवत् भवति सार्वधातुक नाम किं सः प्रत्ययः तिङ् अथवा षित् अस्ति iti एव सार्वधातुकसंज्ञा प्राप्नोति इति पूर्वमेव वयं पठितं तादृशप्रत्ययः यदि अपित् अपि अस्ति चेत् सः ञित्वत् भवति सार्वधातुकम् इति पदं प्रथमान्तपदमस्ति अपित् प्रथमान्तपदमस्ति द्विपदम् इदं सूत्रं गाढगुडादिभ्यो ञन ञित् इत्यस्मात् ञित् इति इत्यस्य अनुवृत्ति अस्मिन् पदे अस्मिन् सूत्रे सार्वधातुकम् अपित् ङित् इति अस्ति सम्पूर्णसूत्रं तर्हि ञित् इति कुतः आगतः इति चेत् गाडुगुडादिभ्योञ्जने ङित् इति सूत्रात् अत्र आगतम् अनुवृत्तिसहितसूत्रमस्ति सार्वधातुकम् अपित् ङित्वत् तर्हि इदानीं ञित् उक्तमस्ति णित्तस्य कार्यं किम् इति ज्ञातव्यं चेदेव अपित् ङित्वत् इति उक्तस्य प्रसक्तिः वयं ज्ञातुं शक्यते तर्हि मित् इत्यनेन किं विवक्षितम् इति अग्रिमपरिच्छेदे दत्तमस्ति किङ् इति च इति सूत्रम् अस्मिन् सूत्रे यः प्रत्ययः गित् कित् अथवा मित् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य इकः इकः स्थाने इक गुणः अथवा वृद्धिः भवति स्म तादृशप्रत्ययः सेटिङ्ग् अपि अथवा चित् नास्ति इति कृत्वा अर्थधातुकप्रत्ययः तर्हि आर्थ सार्वधातुक आर्थधातुकयोः गुणः इत्य इति सूत्रेण गुणकार्यं भवितुम् अर्हति च इति सूत्रेणापि गुणकार्यं भवितुम् अर्हति परन्तु भवति स्म परन्तु किमस्ति सः गुणवृद्धिः न भवति इति उक्तं किमर्थम् इति चेत् किङ् इति सूत्रेण अयं गुणवृद्धिनिषेधः क्रियते प्रत्ययः कित् अस्ति चेत् गुणकार्यं भवितुमर्हति गित् अस्ति चेत् गुणकार्यं भवितुमर्हति कित् गित् ङित् निषेधः क्रियते किङ् इति इति सूत्र यतोहि अनेन सूत्रेण किम् अपि प्रत्ययः ङीतवत् भवतु इति अतः इदानीं प्रत्ययः कीदृशः अस्ति अस्माकं प्रत्ययः अपि अस्ति अपि प्रत्ययः अस्ति इति कारणात् एव अत्र गुणकार्यस्य निषेधः अपि प्रत्ययः नीतवत् भवतु इति उक्तमस्ति तदनन्तरं समासस्य विग्रह वा, विग्रहवाक्यं दत्तमस्ति गा च काच गा च तेषाम् इतरेतरद् समासः कङ् कङ् सः किङ् किङ् इत तस्मिन् परे किम् इति द्वन्द्वगर्भसमासः इति अत्र उक्तमस्ति अतः गास्थाने ककारः खरी च इत्यनेन चातु सन्ति सूत्रं किं वदति खरीपरे चरादेशः भवति तर्हि गकारस्य स्थाने ककारः किमर्थम् इति चेत् गा च का च इति वर्तते प्रथमं गकारः आसीत् चतुर्सन्धिं भूत्वा गकारस्य स्थाने ककारादेशः जातः अतः किङ् इति च इति अत्र प्राप्तं किङ्ति शब्मयन्तम् इत्युक्ते गा का ङ इति आसीत् ककारस्य प्रभावेन गकारस्य ककारः जातः इति अत्र खरीच सूत्रस्य कार्यम् किम् इति सप्तम्यन्तं पदम् यत्र सप्तम्यन्तपदम् आगच्छति पूर्वकार्यम् इति वयं पठितवन्तः द्वन्द्वद्विपदमिदं सूत्रम् इको गुणवृद्धि इति इत्यस्य पूर्णतया अनिवृत्तिः केमर्थम इति चेत् अत्र गुणकार्यस्य वृद्धिकार्यस्य निषेधः इति उक्तमस्ति अतः एतस्य सूत्रस्य कार्यम् अत्र वर्तते इकः स्थाने गुण अथवा न भवति न धातुलोप आर्थधातुके इति इत्यस्मात् न इति गुणवृद्धिकार्यनिषेधः इति बोधनार्थं न ना इति पदस्य आवश्यकता वर्तते तर्हि न इति न धातुलोप आर्थधातुके इत्यस्मात् सूत्रात् अत्र आगतम् अनुवृत्तिसहितसूत्रमस्ति किङ्ति च इकः गुणवृद्धिः न सन्देहः अस्ति चेत् पृच्छतु न धातु लोप आदधातु के कृते किञ्चित् वदति वा भगिनी अस्य सूत्रस्य कार्यम् अत्र नास्ति महोदय केवलं न इति पदमस्ति खलु अत्र अस्तु अस्तु तदा मम कृते आवश्यकम् अतः तद् अनुवर्तिरूपेण अत्र स्वीकृतं सूत्रं न आवश्यकम् भगिनी अत्र किमस्ति एतत् सूत्रस्य कार्यं किम् अस्ति अतः अस्य आँ, आँ, सूत्रस्यापि प्रसक्तिः अत्र नास्ति केवलं ङीति इति पदमस्ति खलु अस्मात् सूत्रात् सीकृतम् इति अत्र उक्तमस्ति एतत् सूत्रम् एतत् सर्वम् अग्रे आयास्यति एव अस्तु इदानीम् उक्तं चेत् बहु भ्रमः जायते इदानीं पाणिनीयसूत्राणि षड्विधानि एतत् पठनीयम् च नियम षड्ध सभाषा चयमेशो सूत्र लक्षणं कि निषेधकम सूत्रं नाम अन कार्य निषिध्य निषेधकं सूत्रं विधिसूत्रेषु अन्तर्भवति सार्वधातुकमपि कीदृशं सूत्रम् अग्रे पठामि वा जानाति वा कीदृशं सूत्रम् इति मया <coughs> तु किमपि <आँदी> सम्यक् न अवगतम् भगिनी <coughs> अधिदेशसूत्रमस्ति संज्ञासूत्रम् इत्युक्ते केवलं नामकरणम् एवं तदनु इति अस्ति खलु विधिसूत्रम् इत्युक्ते यत्र <coughs> यत्र यत्र नियमः नास्ति नियमां विधीयते तद् विधिसूत्रस्य उदाहरणं वदतु इको एणचि आं भगिनि अधिदेशसूत्रं यस्य स्वभावः तादृशं नास्ति तद् तादृशं भवतु इति नामसूत्रं पूर्वं वयं पृष्टवन्तः राष्ट्रस्य अलौद्यस्य एतादृशसूत्राणि यत्र पुनः एव कार्यं निर्दिष्ट अधिदेशसूत्रम् इदानीमुक्तं परिभाषासूत्रम् यत्र नियमं स्पष्टतया न उक्तं तत्र सूत्रम् आगत्य स्पष्टीकरणं कृतमस्ति नियमकारिणी एव परिभाषासूत्रमित्युक्ते नियमकारिणी एव यत्र यत्र गुणवृत्तिः इकः गुणवृत्तिः इति परिभाषासूत्रमेव इको यण्ड् अचित् तदस्ति किल विधि विधिसूत्रम् विधिसूत्र विधिसूत्रम् अत्र कस्यापि सन्देहः अस्ति चेत् पश्यतु इदानीं नूतनकरपत्रमस्ति तत्र अभ्यासः भगिनि भवत्याः स्वास्थ्यः किञ्चित् असम्यक् अस्ति ह्यस्तन एव वयं श्रुतवन्तः भवत्याः किञ्चित् तत्र क्लेशः अस्ति चेत् नूतन नूतनकरपत्रे अन्यस् इदानीम् अत्र स्थगयामः आं महोदय धन्यवादः सर्वेषां नमस्काराः इदानीं वयम् अत्र स्थगयामः आगामिनि सप्ताहे गुणकार्यस्य अभ्यासः इति करोमि अस्तु भगिनि